ं नमो भगवते वासुदेवाय अथ कदरियस्य कदर्यस्य वैकुण्ठप्रापणम् आह्निककथनञ्च नाम एकोनत्रिंशोऽध्यायः पुण्यशीलसुशीलावोचतुः विभो प्रयाहि गोलोकं कथमत्र विलम्बसि पुरुषोत्तमसान्निध्यम् त्वया लब्धं विशेषत कदर्य उवाच बहूनि मम कर्माणि सन्ति भोग्यान्यनेकषः केन मे निष्कृतिर्जात यतो गोलौकमाप्नुयां यावन्त्या वर्षधाराश्च तृणानि भूरजःकणां यावन्त्यस्तारकाव्योम्नि तावत्पानि सन्ति मे कथमे तनमया प्राप्तं वपुरदिव्यं मनोहरम् एतत्कारणमत्युग्रं मह्यं ब्रूत हरे इति वाचमुपाकर्ण्य हरेर्दूतावथोचतुः अहो देव कथं नैव विज्ञातं साधनं प्रभो न ज्ञायते कस्मात् मा सः सर्वोत्तमोत्तमः विष्णुप्रियो महापुण्यो नाम्ना वै पुरुषोत्तमः तस्मिन्स्त्वया तपश्चीर्णम् अशक्यं यत्सुरैरपि अविज्ञातं महाराज कपिदेहेन कानि मुखरोगादनाहारव्रतं जातमजानतः त्वया च कपि चाञ्चल्यात् फलान्युत्कृत्य वृन्ततः क्षिप्तानि पृथिवीपीठे तृप्तास्तैरितरे जनाः पानीयमपि नो पानीयमपि नोपीतम् अन्तर्दुःखेन भूरिशः सञ्जातं ते तपस्तीव्रम् अज्ञानात् पुरुषोत्तमे परोपकारः सञ्जातः फलपातेन तेन शीतवाता तपारौद्राः सोढा विचरता वने महातीर्थे वरे रम्ये पश्चाहं पञ्चाहं प्लवनं कृतम् तस्मात् ते स्नानजं पुण्यं मासे श्रीपुरुषोत्तमे एवं रुग्णस्य ते जातम् अज्ञानात्तपोत्तमम् तदेतत्सफलं जातम् अनुभूतं त्वयाधुना व्याजतोऽपि कृते नैव सफलं स्याद् यथा तव किं पुनः श्रद्धये तस्मिन् मासे श्रीपुरुषोत्तमे विधिना कुर्वतः कर्म ज्ञात्वा माहात्म्यमुत्तमम् यस्त्वया साधितः स्वार्थस्तादृक्कर्तुं च कः क्षमः यस्मिन्नकोपवासेन मुच्यते पापराशिभिः नैतत्तुल्यं भवेत् किञ्चित् पुरुषोत्तमप्रीतिदं ते धन्याः कृतकृत्यास्ति तद्वृतं ये प्रकुर्वन्ति दुर्लभं मानुषं जन्म भूखण्डे भारताजिरे तादृशं जनुरासाद्य सेवन्ते पुरुषोत्तमं ते सदा सुभगाः पुण्यास् तेषां च सफलो भव येषां सर्वोत्तमो मासः स्नानदानजपैर्गतः दानानि पितृकार्याणि तपांसि विविधानि च तानि कोटिगुणान्येव सम्प्राप्ते पुरुषोत्तमे नास्तिकं पापं शठं धर्मध्वजितः चकितो हृष्टः पुलकाङ्कितविग्रहः तीर्थदेवान् नमस्कृत्य कालञ्जरगिरिं ततः न नामकाननाधीशान् सर्वगुल्मलता तरून् ततः प्रदक्षिणीकृत्य विमानं विनयान्वितः आरुरोहघनश्यामो लसत्पेताम्बरावृतः पश्यत्सु सर्वदेवेषु गन्धर्वाद्यैरभिष्टुतः वाद्यमानेषु वाद्येषु किन्नराद्यैर्मुहुर्मुहुः पुष्पवृष्टिमुचो देवा मन्दं मन्दं मुदान्विताः पूजयाञ्चक्रुः पुरन्दरपुरःसरम् ततो जगामगोलोकं सानन्दं योगि दुर्लभं गोपगोपी गवां सेव्यं रासमण्डलमण्डितम् यत्र गत्वा न जरा मृत्युविवर्जिते तत्रासौ क्षित्रशर्मा च पुरुषोत्तमसेवनात् व्याजेनापि द्विभुजं मुरलीहस्तं दृष्ट्वा श्रीपुरुषोत्तमम् श्रीनारायण उवाच इदमाश्चर्यमालोक्य देवाः सर्वे सुविस्मिताः स्वं संस्थानं ययुः सर्वे शंसन्तः पुरुषोत्तमम्